अथ द्विनवत्यधिकशततमोऽध्यायः वैशम्पायन उवाच ततस्तथोक्तपरिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः वृत्तं यथा च कृष्णा धृष्टद्युम्न उवाच योऽसौ युवाव्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः यः कार्मुकाग्र्यम् कृतवानधिज्यम् लक्ष्यम् च यः पातितवान् पृथिव्याम् असज्जमानश्च चक्रामवज्रीवदिते सुतेषु सर्वैश्च देवै ऋषिभिश्च जुष्टः कृष्णाप्रगृह्यादिनमन्वयात्तम् नागम् यथा नागवधू प्रहृष्टा अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु ततो परः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्यमहि प्ररोहम् प्रकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव तौ पार्थिवानां मिषताम् नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ विभ्राजमानाविवचन्द्रसूर्यौ बाह्याम् पुराद्भार्गवकर्मशालाम् तत्रोपविष्टार्चिरिवानलस्य तेषाम् जनित्रीति मम प्रतर्कः तथा उपोपविष्टै नर प्रवीर उपोपष्ट स्त्रि तस्तवाद पाद उत्तावादी स्थिता भिक्षा प्रचारा गता नाग्र तेषाम् तु भैक्षम् प्रतिगृह्य कृष्णा दत्त्वा बलिम् ब्राह्मणसा च चैव वृद्धाम् परिवेश्यतांश्च नरप्रवीरान् स्वयमप्यभुङ्क्त सुप्तास्तु ते पार्थिव सर्व एव कृष्णा चरणोपधाने आसी पृथिव्या शयनम चा दर्जिनाग्रस्तरण